शयनसमये करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं पराधं विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो यानि कानि च जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे, पदे आकाशात् पतितं तोयं यथा गच्छति सागरं सर्वदेव नमस्कारः केशवं प्रति गच्छति कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॐ सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॐ सहना भवतु सह नो भुनत्तु सह वीर्यं करवावहै तेजस्विनवधीतमस्तु मा विद्विषावहै ॐ शान्तिशान्तिशान्तिः शान्ति